अथ त्रयोविंशोऽध्यायः वैशम्पायनुवाच ततस्तं निश्चितात्मानम् युद्धाय यदुनन्दनः उवाच वाग्मीराजानं राजानम् जरासन्धमधोक्षजः श्रीकृष्ण उवाच त्रयाणाम् केन ते राजन् योद्धुमुत्सहते मनः अस्मदन्यतमे नेहा सज्जीभवतु को युधि एवमुक्तस्य नृपतिर्युद्धम् भवे महाद्युतिः जरासन्धस्ततो राजा भीमसेनेन मागधः आदाय रोचनाम् माल्यम् मङ्गल्यान्यपराणि च धारयन्नगदान् मुख्यान्निर्वृतिर्वेदनानि च उपतस्थे जरासन्धम् युयुत्सुम् वै पुरोहितः कृतस्वस्त्यय नो राजा ब्रह्मणेन यशस्विना समनह्यज्जरासन्धः क्षात्रम् धर्ममनुस्मरन् अवमुच्यतिरीटम् स केषाम् समनुगृह्य च उदतिष्ठज्जरासन्धो उवाच मतिमान् राजा भीमम् भीमपराक्रमः भीमयोत्स्ये त्वया सार्धम् श्रेयसा निर्जितम् वरम् एवमुक्त्वा जरा सन्धो भीमसेनमरिन्दमः प्रत्युद्ययौ महातेजाः शक्रम्बल इवासुरः ततः सम्मन्त्र्य कृष्णेन कृतस्वस्त्यय नो ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः वीरौ परमसंहृष्टवन्योन्यजय काङ्क्षिणौ करग्रहणपूर्वम् तु कृत्वा पादाभिवन्दनम् कक्षैः कक्षां विधुन्वा नावास्फोटम् तत्र चक्रतुः दोर्भ्याम् समाहत्य निहत्य च मुहुर्मुहुः अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं विभो चित्रहस्तादिकं कृत्वा कक्षाबन्धम् चक्रतुः गलकण्डाभिघातेन स स्फुलिङ्गेन चाशनिम् बाहुपाशादिकम् कृत्वा पादाहतशिराबुभौ उरोहस्तम् ततश्चक्रे पूर्णकुम्भौ प्रयुज्यतौ करसंपीडनं कृत्वा गर्दन्तौ वारणावि नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ तलेना हन्यमानौ तु अन्योन्यम् कृतवीक्षणौ सिंहाविवसु सङ्क्रुद्धा वा कृष्याकृष्य युध्यताम् अङ्गेनाङ्गम् समापीड्य बाहुभ्यामुभयोरपि आवृत्य बाहुभिश्चापि उदरम् च प्रचक्रतुः उभौ कट्यांशु पार्श्वे तु दक्षवन्तौ च शिक्षितौ अधो हस्तम् स्वकण्ठे तु सर्वातिक्रान्तमैर्यादम् पृष्ठभङ्गम् चक्रतुः सम्पूर्णमूर्छाम् बाहुभ्याम् पूर्णकुम्भम् प्रचक्रतुः तृणपीडम् यथा कामम् पूर्णयोगम् च मुष्टिकम् एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम् तयोर्युद्धम् ततो द्रष्टुम् समेताः पुरवासिनः ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः शूद्राश्चन्मरशार्दूल स्त्रियो वृद्धाश्च सर्वशः निरन्तरमभूत्तत्रसंवृतम् तयोरथ भुजाघातात् निग्रह प्रग्रहात् तथा आसीत् सु भीमसम्पातो वज्रपर्वतयोरिव उभौ परमसंहृष्टौ बलेन बलिनाम् वरौ अन्योन्यस्यान्तरम् प्रेप्सु परस्पर तद्भीममुत्सार्य युद्धमासीदुपप्लवे बलिनोः संयुगे राजन्व्रत्र वासवयोरिवा प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः आचकर्षतुरन्योन्यम्